मार्कण्डेयपुराणम् अध्यायं 65 मार्कण्डेय उवाच ततः स ताभिस्सहितः पत्नीभिरमरज्वितिः ररामतस्मिन् शैलेन्द्रे रम्यकाननर्च्छरे सर्वोपभोगरत्नानि मधूनि मधुराणि च निधय पत्मिन्या स्त्रजो समुवाजह ग्रुह्या वशवर्तिन स्वस्ण्यल गढ़्यमुपनम आसानन्यतिशुभ्रणि कांचनाथेया सौन्य महाभाग कजना च तथा शय्याश्च विविधा दिव्यैरास्तरणैर्युताः एवं स ताभिस्सहितो वरपर्वदे ताश्चापि सहते नेदि लेभिरे मुदमुत्तमां रममाणा यथा स्वर्गे तथा तत्र शिलोच्चये कलहंसी जगादयिकां चक्रवाकीं जले सतीं तस्य तासाञ्चलिते सम्बन्धे च स्पृहावती धन्योऽयमधिपुण्योऽयं योययौवनगोचरः दयिताभिः सहयिताभिर्भुङ्ग्रे भोगानभीप्सितान् सन्धि यौवनिनश्लाघ्यास्तत्पत्न्यो नाधिशोभनाः जगत्यामल्पकाः पत्न्यः अभीष्टा कस्यचित् कान्ता कान्तः कस्याश्चिदीप्सितः परस्परानुरागाढ्यं दाम्पत्यमधिदुर्लभम् धन्योऽयं दयिदाभीष्टो ख्येदाश्चास्यादिवल्लभाः परस्परानुरागो हि धन्यानामेव जायते ये दन्निशम्यवचनं कलहंसीसमीरिदम् उवाच चक्रवागीतां नादि विस्मितमानसा नायं धन्यो यदो लज्जा नान्यस्त्रीसन्निकर्षतः अन्यां स्त्रियमयं भुङ्े न सर्वा स्वस्य चित्तानुराग एकस्मिन्नधिष्ठाने यतः सखि ततो हि प्रीधिमानेष भार्यासु भविता कथं एता न दयिताः पत्युर्नयितासां दयितः पतिः विनोदमात्रमेवैदा यथा परिजनोऽपरः एतासां च यदिष्ठोऽयं तत् किं प्राणान्नमुञ्चति आलिङ्गत्यपरां कान्तां ध्यादो वै कान्तयान्यया विद्याप्रधानमूल्येन विक्रीतो ह्येषभृत्यवद प्रवर्तते नहि प्रेम समं बह्वीषु तिष्ठति कलहंसिपधिर्धन्यो मम धन्याहमेव च यस्यैकस्याञ्चिरं चित्तं यस्याश्चैकत्र संस्थितं सर्वसत्त्वरुतज्ञोऽसौ स्वरो चिरपराजितः निशम्य लज्जितो दध्यौ सत्यमेवहि नानृतं तदो वर्षशदे यादे रममाणो महागिरौ रममाणः समं ताभिर्ददर्श पुरदो मृगम् सुस्निग्धपीनावयवं मृगयूधविहारिणम् वासिताभिः सुरूपाभिर्मृगीभिः परिवारिदम् आकृष्टघ्राणपुटका जिघ्रन्तिस्तास्तदो मृगीः उवाच स मृगो रामा लज्जात्यागेन गम्यतां नाखं नैवाक सुोचनालज्ज्ज बहव सन्दी ताद्र गेकानेगता यथा जने हासस्पनेत वैको भोगदृष्ट्यारीक्षि हा। तस्य धर्मक्रिया हानिरहन्यहनिजायते सक्तोऽन्यभार्यया चान्यकामासक्तः सदैव सः यस्ता दृश्योन्यस्तच्छीलः परलोकपराङ्मुखः तं कामयदभद्रं वो नाहं तुल्यस्वरोचिषा स्वारोचिशे यीमार्कंडेयपुराणे स्वारो पंच मन्वठीतम ओ